मुद्गलपुराण खंडम फंबोदरचर अध्या तर्टिफेशमगणेशा नम गाग्य उच मुकुंद कामदग्धा सादरणीतले न किंचि तस्या, तभूव पृथिवीतले ततो दिशोगसंयुक्ता तमेवाचिन्त्यसंस्थिता निद्रां लेभे ततस्तां सो बोधयद्देवनायकः तस्याः शान्तिप्रदानार्थं स्वयं तत्रा जगामः रुक्माङ्गदस्वरूपी बुभुजे ताम सुराधिपः साहर्षिदा हर्षिदा जगामैव स्वगृहं गर्भसंस्थिता इन्द्रस्वर्गं ययौभूप हर्षयुक्तो विहायसा वाचक्नविसमायाधकृत्वा कृत्य क्रिया मुनिः नबुबोधमुकुन्दायाश्चरितं स तपोरतः ततः पूर्णे च गर्भे स सुषुवे पुत्रमुत्तमं जातकर्मादिगं सर्वं चकारमुनिसत्तमः घृत्समदेदि पुत्रस्य नामचक्रे सुखप्रदम् चकारव्रतबन्धं तु पञ्चमे हर्षसंयुतः वेदानध्यापयामासश्रवणग्राहकाय वै स्वयं तस्मै ददौ मन्त्रं गणानां त्वेदि ऋग्भवं तेन मन्त्रेण विघ्नेश्यं ध्यात्वा गृत्समदो मुनिः तोषयामास्वभावेन नित्यं जपपरायणः कदाचित्तत्र राजा स मगधस्तं जुहावच पितु्राद्धे सुतान्तं वै तपोयुक्तं यशस्विनं तत्र वसिष्ठमुख्याश्च मुनयो योगपारगाः समागदासभायां ते विविशुः पूजिता नृप तत्र शास्त्रप्रसङ्गे स गृत्समद उवाचः योगमयोगिभावस्तश्रुत्वा त्रिस्तं वजो वजोब्रवीद अयोगी योगिनां मध्ये रुक्माङ्गदसुधस्तथा वदसि त्वं न योग्योऽसि पङ्क्तौ गच्छ निजाश्रमं ततोऽधिकोपसंयुक्तस्वं गृक्समद आश्रमं जगामसोऽपि जननीमपृच्छद्रक्रलोचनः वदतादं मदीयं त्वं कामुके निरपत्रपे कथं रुक्माङ्गदाज्जादोहं नो चेत् त्वां शपामि तु जगादशापभीता तं तदस्सा कम्पसंयुता वृत्तान्तं पूर्वत्सम्भूतं रुक्माङ्गदविहारजम् तच्छ्रुत्वा कोपसंयुक्तः शशापजननीं सुतः कण्टकीभवमादस्त्वं दुष्टकर्मपरायणा अतिक्तफलां तत्र भक्षिष्यन्ति नरा नताम् अरण्ये निन्दिता नित्यं भुङ्क्ष्व पापं पुराकृतं ततः स्वपुत्रं तं शशापक्रोधपूरिता त्वत्तः पुत्रो महादैत्यो भविष्यति सुदारुणः ततो देहं समुत्सृज्य मुकुन्दा सा भवन्नृप कण्टकीश्याम संज्ञासा पापकर्मपरायणा गणेशभक्त विक्षेपधादृत्वादखमुत्तमं <Sess> तया प्राप्तं चिरं पूर्णं तेन शापयुधा भवद कल्पे कल्पे च शापात् सा सदा वृक्षत्वमागदा पश्य विघ्नस्वरूपं त्वं महाभयकरं नृप तदो गृत्समदः क्षुब्धो देहत्यागे समुद्यतः तद आकाशवाणी तं जगादप्रेमसंयुता इन्द्रोरुक्माङ्गदीभूतस्तस्माज्जातोऽसि मानद भज लम्बोदरं नित्यं ततः सौख्यमवाप्स्यसि श्रुत्वा सोऽपि वने गत्वा तताप तप उत्तमं निराहारेण संस्थश्च गणेशमभजत् सदा ब्रह्मणस्पदिसूक्तैश्चाभिषिञ्चन्मण्डले स्थितं जपं चकार भावेन ब्राह्मणत्वस्य कारणात् अैल उवाच ब्रह्मणस्पदिसूक्तानां मण्डलं कीदृशं स्मृदं फलं च कीदृशं तत्र लभदे मानवः प्रभो कथयस्वविधानेन दयानिधे येन विघ्नेश्वरप्रीतो भवेत् सर्वार्थ दायकः गार्ग्य उवाच ब्रह्मणस्पदिसूक्तानां विधिं महामदे यथा गृत्समदः सिद्धो बभूवे तस्य सेवनाद गणानां त्वेदि मन्त्रेण षोडशाङ्गे शुभूमिप न्यासं कुर्यात् तथा पूज्याभिषेकं तु समाचरेत एकविंशतिभिर्भूपा वृत्तिभिरेकविंशतिः समाख्याता च सूक्तानामभिषेके तथा जपे येदा दृश्याश्च राजेन्द्र भवन्त्येकाधिकास्ततः विंशत्यो मण्डलं ह्येकं ज्ञातव्यं विबुधैः परं मण्डलानि महाभाग एकविंशन्मितानि च भवन्ति समाख्यादं महामण्डलकं बुधैः अभिषेके समाख्यादम् जपे वा राजसत्तम सर्वसिद्धिप्रदं पूर्णं महामण्डलकं सुरैः धर्मार्थकाममोक्षे शुप्रशस्तं कर्मसिद्धिदं गणेशप्रिदये भक्त्या ब्रह्मभूतकरं भवेत् ब्राह्मणत्वस्य कार्यार्थं कृतं तेन महात्मना गृत्समदेन सूक्तानां महामण्डलकं नृप ये दत्ते कथितम्भूपाधुना शृणुकथानकं विघ्नेशप्रापकं गृत्समदस्य दुरितापसम् स्वयं गृत्समदस्तत्र नित्यं कृत्वा यथा विधि गणानां त्वेदि मन्त्रेण पुपूज विघ्ननायकं एकविंशतिमेकां स नित्यं चकार भूमिप अभिषेकार्तमेवं तु तदो जपपरो भवत गणानां त्वेदिमन्त्रस्य जपं चकार नित्यदा सदानि ध्याननिष्ठः नासा ग्रण्यस्त नास्न्यस्तदृष्टिश्च सदा यत्नपरायणः महोग्रतपसा देवं तोषयामास विघ्नपम् ं वर्षसहस्रैस्तु दिव्यैर्विघ्नेश्वरो ययौ मुनिं तं भक्तवात्सल्यादुवाजध्यानसंस्थितं श्रीगणेश उवाच पश्य मां मुनिशार्दूलब्रह्मणस्पदिमागधं वरयः स्ववरान्मत्तो दास्यामि तुभ्यमादराद गणेशवचनं श्रुत्वा गृत्समदः सुहर्षिदः उन्मील्यलोचने ढुण्डिमपश्यन्निकटे स्थितं तदोदिहर्षसंयुक्तः प्रणनामविनायकं भक्त्या सम्पूज्यतुष्टाव साश्रु नेत्रो नराधिपं तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते गृत्समदगणेशसमागमो नाम पञ्चत्रिंशत्तमोऽध्यायः ओ